पादुका श्रीरङ्गनाथपादुकासहस्रं पद्धति ट्वेन्टि ऐट् सुभाषितपद्धतिः अनुष्टु कलासुकाष्ठामादिष्ठन्भोम्ने सम्बन्धिनामपि पादुका रङ्गधुर्यस्य भरदाराध्यतां गदा वसन्ततिलक सन्दः स्वदेशपरदेशविभागशून्यं हन्तस्ववृत्तिमनकाम्नपरित्यजन्ती राज्ये वने च रकुपुङ्गवपादरक्षा नैजं जहौ न खलु कण्टकशोधनं तद् ब्रह्मास्त्रतामधिजगामतृणं प्रयुक्तम् पृथ्वीं शशासपरिमुक्तपदं पदत्रं किं वा न किं भवधिघेलिविधौ विभूनां पुण्यं शरव्यमभवत्पयसां अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवाद्भ्रष्टः पदादधिकरोधिपदं पदार्हः प्रायो जनिदर्शयदि तत्प्रथमो रघूणां तत्पादयोः प्रतिनिधी मणिपादुके वा मालिनि चरणमनखवृत्ते कस्यचित्प्राप्य नित्यं सकलभुवनगुप्त्यै सत्पथे वर्तते यः नरपदिबहुमानं पादकेवाधिगच्छन् स भवति समयेषु प्रेक्षितज्ञैरुपास्यः मन्दाक्रान्ता रामे राज्यं पितुरभिमदं सम्मदं च प्रजानां माधावव्रे तद हि भरदे सत्यवादी ददौच च चिन्तातीदः समजनितदा पादुकाग्र्याभिषेको दुर्विज्ञानस्वहृदयमहो दैवमत्र प्रमाणम् नादिक्रामे चरणवहनात्पादुकापादपीठं यद्वासन्नं परमिह सदा धादिराजासनस्य पूर्वत्रैव प्रणिहिदमभूध्यन्तरामेण राज्यं शङ्गे भर्तुर्बहुमधिपदं विक्रमे साहचर्यम् अपरवक्त्रा प्रतिपद च पदापिपादुका रघुपदिना स्वपदे निवेशिता समजनिभृधस्तिदिस्तदा वि युशाम। वियोगिनी क्वचित पदे स्तिमिपुवचि नि वस्तुषुशक्रीनिश्चय नियति कवलमीशरेया गीति अधरीक तमेव सेवेदसादरं भूष्णुः अलभदसमये रामात्पादाक्रान्तापिपादुकाराज्यम् इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथ पादुकासहस्रे सुभाषितपद्धतिरष्टाविंशी ओ